अथर्वेदे चतुर्थाष्टके तृतीयोऽध्यायः ओ प्रयुञ्जती दिवदेब्रुहाणा महीमाता दुहितुर्बोधयन्ति आविवा आसन्तिर्मनीशापितृभ्य आसदनेजोहुवाना अजिरासस्तदपीयमाना आतस्थिवांसो अमृतस्य नाभिम् अनन्तास स उरवो परिद्यावा परिद्यावाः पृथिवीयन्ति पन्थाः मुक्षा समुद्रो अरुषः सुवर्णः पूर्वस्य योनिम् मध्ये दिवोनिः तः पृष्टिरश्मावितक्रमे रजसस्पात्यन्तौ चत्वार ईम् बिभ्रति क्षेमयन्तोदश त्रिधातवः परमा अस्य गावोः दिवश्चरन्ति परिसद्यो अन्तान् इदम् वपुर्निवचनञ्जनासश्चरन्ति नद्यस्तस्थुरापाः जेयदीम् विभृतो मातुरन्ये इहेह दाते यम्याः आसबन्धो वितम्बतेधियोः अस्माम् शिवस्त्राः पुत्राय मातरो भजन्ति उपप्रक्षे वृषणो मोदमानादिवस्पर्शा बुद्धो ओ यन्त्यच्छ तदस्तु मित्रावरुणा तदग्नेशयोरस्मभ्यमिदमस्तु शस्तम् अशीमहि गाधमुतप्रतिष्ठान्नमो दिवे बृहते साधनाया कदु प्रियाय धाम्नेमनामहेश्वक्षत्रायस्वयशसे महे, महे भयम् आभेऽन्यस्य रजसो यदभ्र आपो वृणानापितनोति मालिनी ता अत्नतमयुनम् वीरभक्षणम् समान्यामृतजा विश्वमारजाः अपो अपा आचीरपरा अपेजते प्रपूर्वाभि स्थिरते देवयुर्जनाः आग्रावभिरहन्येऽभिरक्तुभिर्वरिष्ठम् आग वज्रमादिकर्तिमाजिनि शतम् वाजस्य प्रचरन् सम्वर्तयन्तो वितवर्तयन्न तामस्य रीतिम् परशोरिमप्रत्यनीकमख्यम् भुजे अस्य वर्पसः स चा यदि पितुमन्तमिवक्षजम् रत्नम् दधातिभरहूतये विषे स जिह्वया चतुरनीकरञ्जते चारुवसाः नोपरुणो यतम् नरिम् न तस्य विद्मपुरुषत्वताः भजम् यतो भगः स पिता दातिवार्यम् वो अद्य स पिता रमेशे भगम् च रत्नम् विभजन्तमायोः दिवे दिवे चिदश्विना प्रतिप्रयाणमसुरस्य विद्वान्सूक्तैर्देवम् स वितारम् दुवस्य उपब्रुवेतनमसा विधानम् ज्येष्ठम् च रत्नम् विभजन्त मायोः अदत्रयादयते वार्याणि पूषा भगो अधिर्वस्त उस्रः इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहाणि भद्राजनयन्त तस्माः तन्नो अनर्वासभितावरो धन्तत्सिन्धव विषयन्तो अनुग्मन् उभयद्वोते अर्धरस्य होता राजस्यामपतयो वाचरत्नाः प्रये वशुभ्ययीवदा मित्रे वरुणे सूक्तवाचः अपै त्वभ्यम् कृणुतावरीयो दिवः पृथिव्योरवसामदेवा सूक्तान् ते तृणान्यज्ञावरण्ये बोदकेऽपि वा यत्स्तृणैरध्ययनन्दनधीतम् स्तृणानि भवते भव पापी कूपतडागानाम् समुद्रम् गच्छ विश्वो देवस्य नेतुर्मर्तो बुरीतसख्यम् विश्वो ओ राज इषुध्यति द्युम्नम् वृणीत पुष्यसे ते ते, ते, ते आ आ आ आ आ आ ए चे मानुषसे ते राजाते ह्या आवृते स चे अतो नादृ नतिहेनतः पत्नी निर्दशस्यत आरे विश्वम् अथेष्ठान्विषो युजोतुयोभिः यत्र मन्धिरभिहितो रुद्रवद्रोण्यः पशुः द्रमणा वीरपस्योर्णाधीरे वसनिता एष ते देवनेतारथस्पतिः शं रजिः शं राजेशं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे अग्ने सुतस्य पीतये विश्वैरूभिरागहि देवेभिर्हव्यदातये कृतधीतयागतसत्यधर्माणो अध्वरम् अग्नेष्टिबतजिह्वया विप्रेऽभिर्विप्रसन्त्य प्रातर्यावभिरागहि देवेभिः सोमपीतये अयम् सोमश्चमो सुतोमत्रे परिशिच्यते प्रिय इन्द्राय वायवे वायवायाहि मीतये तुषाणो हव्यदातये पिवाः सुतस्यान्धसो अभिप्रयाः इन्द्रश्च वायवेषाम् सुतानाम् प्रीतिमरुधः ञ्जुषेथामरेपसाभिप्रयाः सुता इन्द्रायवायवे सोमाः सोदध्याः शिरः निम्नम् नयन्ति सिन्धवोऽभिप्रयाः सजोर्विश्वेभिर्देवेभिरश्विभ्याः मुषसाः सजोः आयाह्यज्ञेऽत्रिवत्सुतेरणा सजोर्मित्रावरुणाभ्याम् सजोः सोमे न विष्णुना आयाह्यज्ञे अत्रिवत्सुतेरण सजोरा आदित्यैर्वसुभिः सजोरिन्द्रेण वाजुना आयाह्यज्ञे अत्रिवत्सुतेरण स्वस्ति नो मिमीतामश्विनाभगः स्वस्ति देव्यदितिरनर्वणाः स्वस्ति भूषा असुरो दधातु नः स्वस्ति द्यावाः पृथिवी सुचेतुनाः स्वस्तये वायुमुपब्रवामहै सोमम् स्वस्ति भुवनस्यपतिः बृहस्पतिम् सर्वगणम् स्वस्तये स्वस्तय आदित्यासो भवन्तु नः विश्वे देवानो अद्या स्वस्तये वैश्वानरो वसुरग्निस्वस्तये देवावन् स्वस्तये देवा स्वस्ति नो रुद्रः पात्वम् भसः स्वस्तिमित्रावरुणा स्वस्ति पथ्येरेवति स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति, स्वस्ति मोह अधिते कृधि स्वस्ति पन्थामनुचरेम सूर्या चन्द्रमसामिव पुनर्दतताघ्नता जानता सङ्गमे महि स्वस्य नन्तार्क्ष्यमरिष्ठनेमिम् महद्भूतम् वायसन् देवतानाम् असुरघ्नमिन्द्रसखम् समत्सुरहद्यशो नामरुहेम अम्भोमुजमाङ्गिरसङ्गयम् च स्वस्त्या त्रेयम् मनसा च तार्क्ष्यम् प्रयतपाणिः शरणम् प्रपद्ये स्वस्ति सम्बाधेष्वभयन्नो अस्तु प्रदश्याः बाष्पधृष्णुयार्चा वरुद्भिरलक्मभिः ये अद्रोघमनुश्रुतम् श्रवो वदन्ति यज्ञाः तेः स्थिरस्य शवसा यः ते यामन्नाधृषद्विनस्मनापान्ति शश्वतः ते स्पन्द्रासोनो क्षणोतिष्कन्दन्ति सर्वदैः मरुतामधामहो दिविक्षमा च मन्महे मरुत्सुबोधीमहि स्तोमयी लिग्नम् च सुष्णुया विश्वे ये मानुषादिवापान्ति मध्यम् रिषः अर्हन्तो ये सुदानभो नरोऽसामिषमसः प्रयज्ञै यज्ञिये एभ्यो दिवो अर्चा मरुद्भ्याः आरुक्मैराजुधानरृष्वा ऋष्टिरसृक्षत अन्वे एनाम् अहर्विद्युतो मरुतो जतीरिव भानुरक्तत्मनादिवः ये वा आवृथन्तपार्थिवाय उराभन्तरिक्षे एवादीनां सतस्थे एव महो मारुतमुच्छं सत्यशव समर्भसम् उतस्मते शुभेन रः प्रस्पन्दायुज तत्मना उतस्मते परुष्ण्यामूर्णामसतशुन्ध्यवाः ऋत पव्या रथा नामद्रिम् भिन्दन्त्योजसा आपथयो विपथयोऽन्तस्पथा अनुपथाः एते धर्मह्यन्नामभिर्यज्ञम् विष्टार ओहते अथा नरोऽन्योहते अथापारा इति चित्रारूपाणिदर्श्याः छन्दस्तुभः कुभन्यव उच्छमा कीरिणोः नृतुः ते मे के चिन्नताय व ऊमाः आसन् दृशिकृषे यदृश्वा नमस्या रमयाः गिरा अच्छरुषे मारुतङ्गणन् यो वा तृष्णभवोजसा स्तुताधिभिरिषण्यत नोमन् वान एषाम् देवाङ्गच्छानभक्षणा दानास चेतसूरिभिर्यामश्रुतेभिरन्दिभिः प्रयेमे पन्थे शेगाम् वोचन्तसूरयः पृष्णिम् वोचन्तमातरम् अथा पितरमिष्मिनम् रुद्रम् वोचन्द शिक्वसः सप्तमे सप्तशाकिन एकमेका शता यमुनायामधिश्रुतमुद्राधो गव्यम् नृजे निराधो अश्वम् नृजे कोवेदरानमेषाम् को वा पुरा सुम्नेष्वा समरुताम् यद्ययुज्रे किला स्याः एतान् रथेषु तस्थुषः कशुश्रावकथाययोः कस्मै सश्रुः सुदासे अन्वापय इराभिरृष्टयः सः तेम आहुर्य आहयुरुपद्युभिर्विभिर्मदे नरो मर्या अरेपस इमान् पश्यन्नि तिष्टुहि ये अञ्जिषु ये वाशीषु स्वखानवस्रक्षुरुग्मेषु खादिषु श्रायारथेषु धन्वसु युष्माकम् स्मारथाङ्गनुमुदे तथे मलुतो जीरदानवः वृष्टेद्यावो यतिरिव आयन्नरः सुदानवो ददाशुषे दिवः कोशमचुच्यभोः विपर्जन्यम् सृजन्ति रोदसेवनुधन्मनायन्ति वृष्ट्याःदानाः सिन्धवहाक्षोदसारदः प्रसस्वर्धे न वो यथा स्यन्ना एन्याः आयातमरुतो जन्तरिक्षायमादुता मा वस्थातपरावताः मा वो मा वः परिष्ठात्सरयुः पुरेषिण्यस्मे इत्यत्सुम्नमस्तु वः तम् वः शर्धम् रथाः नाम् क्लेशम् गणम् मारुतम् नव्यसेनाम् अनुप्रयन्ति वृष्टयाः शर्धम् शर्द्धम् व एषाम् रातम् रातम् अनुक्रामे मधेतिभिः कस्माः अद्य सुजाः ताय रातहौयाय प्रययुः येन तोकायतनयाय धान्या अम्बीजम् वहद्धे अक्षिणम् अस्मभ्यम् दद्धत्तनयद्वीमहे राधो विश्वायुसौभगम् अतीयामनिद स्थिरस्वस्तिभिर्हित्वा पद्यमरातीः वृष्टि संयोराप उस्रिहे शजम् श्याम मरुतः सः सुदेवः यन्त्रायध्वे स्यामते स्तु हि भोजास्तु मतो अस्य जामनिरनन्द्रावोरयवसे घर्मस्तुभे दिव आपृष्ठयज्वने श्रवसे महि नृम्णार्चला प्रवो मरुतस्तपिषा उदन्यवोपयो मृतो अश्वयुतः परिज्रयः संविद्युता वारन्त्यापोपना परिज्रयः विद्युन्मह सोनरो अश्मदिद्यभो वा तत्पिशो मरुतः परुपदच्युताः अब्दया तोनुद्राव्यहा निषिक्वसोऽभ्या अन्तरिक्षम् विरजा हंसि धूतयः वियदज्राम् न यथ नाम एयजावि दुर्गाणि मरुतो नाहरिष्यथ तद्वीर्यम् वो मरुतो महि त्वरम् दीर्घन्तता न सूर्यो रयोजनम् एता अभ्रादिशर्धो मरुतो यदर्णसम्मोषधा वृक्षम् कमनेपेधसः अधस्मानो अरमतिम् सजोषसश्चक्षुरि वयन्तमनुमेषथा सुखम् न स दीयते मरुतो न हन्यते न श्रेधति नव्यसते नश्यति नास्य राज उपदस्यन्ति नोतयऋषिम् वायम् राजानम् यथा नरो द्रमणो न किंवन्द्युत्संयतिनासो अस्वरन्द्वन्द्रिपृथिवेन्धसा प्रवत्पदेयम् पृथिवे भवद्भ्यः प्रवत्पते द्योर्भवति प्रयद्भ्याः प्रवत्पते त्वत्थाः अन्तरिक्ष्याः प्रवत्पन्दः पर्वताजीरदानवः यन्मरुतः सफरसस्वर्णरः सूर्य उदिते मदथादिवो नरः नरोश्वाश्रथयन्ता हसिश्रथः सद्यो अस्याद्भरः अंसेषु वरष्टयः पत्सुखादयो वक्षः सुक्मा मरुतो रथे विद्युतो गभस्त्योऽशिप्राः शीर्षसु वितता हिरण्ययैः तन्नागमवर्यो अग्रभीतशोचि संवृषत्पिप्पलम् मरुतो विधोऽनुथ समत्यन्तवृजनातित्पिषन्तयश्वरम् दिको ग्रीष्मादत्तस्य मरुतोऽपि चेतसो राजस्यामरथ्यो वो वयस्वतः युच्छति दृश्यो वोयसादिवोस्मेरारन्तमरुतः सहस्रिणम् यूयम् रजिम् मरुतः पार्हवेरम् यूयमृषिमवथसाम विप्रम् यूयमरुन्तम् भरतायवाजम् यूयम् धत्थराजानम् सृष्टिमन्तम् तद्वो यामिद्रविणम् सद्य ऊतयो येना स्वा अर्णतनामर्यङ्ग्रभि इदम् सुमे मरुतो हर्यतापचो यस्य तरे मतरसा शतम् प्रयज्यवो मरुतो मरुतोभ्राजदृष्टयो प्रहद्वयो रुधिरे रुक्मवक्षसः यीयन्ते अश्वैः श्रुयमेऽपि नाशुभिष्वै यातामनुरथा अवृत्सता स्वयम् दधिद्भेतभिषीयथाविदबृहन्महान्त उर्वियाभिराजथा कृतान्तरिक्षम् अपि साशुभञ् यातामनुरथाः अवृत्सत साकम् जाताः सुभ्वः साकमुक्षिता श्रिये जिदा प्रतरम्बाः मृधुर्मराः रोकिनः सूर्यस्येव रश्मयः शुभञ यातामनुरथाः अवृत्सत मा भूषेण्यम् वो मरुतो महितन्दिदृक्षेण्यम् उतो अस्मान् अमृतत्वे तथा न शुभञ् यातामनुरथाः अवृत्सत उदीर यथा मरुतः समुद्रतो योजम् वृष्टिम् वर्ष यथा पुरेषिणः नवोदस्रा उप दस्यन्ति तेन पशुभञ् या, या तामनुरथाः अवृत्सत यदश्वाहन्धो शुभतीरयुग्ध्वम् हिरण्ययान्प्रत्यत्काम् अमुग्ध्वम् विश्वा इत्स्फुतो मरुतोऽ्यस्य शुभञ् यातामधुरथा अवृत्सत न पर्वताननर्द्यो वरन्तभो यत्राचिध्वम् मरुतो गच्छते दुदत उत द्यावापृथिवीयाथ नापरिशुभञ् यातामधुरथा अवृत्सत यद्भूर्व्यम् या मरुतो यच्च नोतनयदुद्यते शस्यते विश्वस्य तस्य भवथा न वेदसशुभञ यातामनुरथाः अवृत्सत ऋणतनो मरुतोमावधिष्टनास्मभ्यम् सर्वनास्तोत्रस्य सख्यस्य गातनशुभञ यातामनुरथाः अवृत्सत योऽयमस्मान्न तव स्यो अच्छादिनम् अधिभ्योऽतो गृणानाः द्विषद्भन्नो हव्यदातीयजत्राभजम् स्यामपतयोरयिणा अद्येषम् तमागणम् पिष्टम् ऋग्वेभिरञ्जिभिः विशो अद्य मरुतामवह्वये दिवश्चिद्रोचनादधि यथा चिन्मन्यसे हृदादतिन्मे जग्मुराशसाः येष्ठम् भवनान्यागमन्तान् वर्धभेमसन्दृशः ेषुष्मदेव पृथिवीपराहता मदन्तेत्यस्मदा रक्षो नभो मरुदश्विमेवामो रुध्रो गौरिमभियेणन्त्योजसा रथा गावोरधुराः अश्माहान्यम् पर्वतम् गिरिम् प्रत्याहवयन्ति यामभि उत्तिष्ठ नून मे एषाम् सोमैः मरुताम् पुरुतमपोर्जङ्गवाम् सर्गमिवह्वये युन्धम् ह्यरुषे रथे युन्ध्वम् रथेषु रोहिताः युन्धम् हरिः अजिराधुरि वोल्हवे बहिष्ठाधुरि वोल्ढवे उतस्य भाज्यरुषस्तु विश्वनिरिहस्मथायि दर्शतः मा वोयामेषु मरुतश्चिरङ्गरत्प्रतम् रथेषु चोदत रथम् नु मारुतम् वयम् श्रवस्यु आ यस्मिन् तस्थौ सुरणा निबिभ्रती स चा मरुत्सुरोदसी परम् वःश्रद्धम् रथे शुभम् देशम्भनस्युमाहुवे यस्मिन्सु जाता सुभगा महीयते सचा चाः मरुत्सुमेषी आ रुद्रास इन्द्रमन्तः सजोषसो हिरण्यरथा सुविताय कन्तन इयम् वो अस्मत्प्रतिहर्यते मतिस्तृष्णजेन उत्साह उदन्यवेः वाशीमन्दरृष्टिमन्दोमनीषिणः सुधन्वा न इषु मन्दो निषङ्गिणाः स्वश्वास्थ सुरथाः कृष्णिमातरः स्वायुतामरुतो याथनाशुभम् पृथद्याम् पर्वतान्नाशुषेवसुनिभोमनादिहते या मनोभिया कोपयथ पृथिवीम् पृश्निमातलः शुभे यदुग्राः पृषतीरयुग्धम् वा तत्पिषो मरुतो वर्षनिर्णियो यमा इवसुसदृशः सुपेशसः विशङ्गाश्वा ऋणाश्वा रेपसस्पत्पक्षसो महिनाद्यौरि गोरवाः पुरुद्रप्सा अञ्जिमन्तः सुदानवस्पेशसन्दृशो रामभ्रनाधसः सुजातासो जनुषा रुक्मवक्षसो दिवो दुष्टयो वो मरुतो हंसयोरथि सह वोजो बाह्वोर्भोवनम् इदम् नम्णाशीर्षस्वायुधारथेषु भो विश्वावश्रीरथितनूषु पिपिशे वो मदश्वाभद्रथवत्सुबीरम् चन्द्रभद्राथो मरुतो ददानः प्रशस्ति नः कृणुतरुद्रियासो भक्षेय वो वसो दैवव्यस्य हयेन रो मरुतो मृळताः न स्तुे एमघासो अमृता नृतज्ञाः सत्यश्रुतः कवयो युवाः नो बृहद्गिरयो बृहदुक्षमाणाः तमो नोऽनन्तविषेमन्तमेषाम् स्तुषे गणम् मारुतन्दव्यसेना य आश्व अमवद्वहन्त उते शिरे अमृतस्य स्वराजाः त्वेषम् गणम् तव सङ्घादिहस्तधुनिवृतम् मायि नन्दातिवारम् मयोभुवो ये अमितामहित्वा मन्दस्वभिप्रतुविराधसोद आवो अयन्तो दवाहासो अद्य वृष्टि ये विश्वे मरुतोऽजुनन्ते अय अद्यर्मरुतः समिद्ध एतञ्जुषद्भङ्गमयो युवानः योऽयं राजाः न विर्यञ्जनाय विभ्वतष्टञ्जनयथाय जत्राः युष्मदे एतिमुष्टिः बाहुजूतो युष्मत्सदश्वो मरुतः सुवीराः अरा इवेदचरमा अहे एव प्रजायन्ते अटवामहोभिः कृष्णे पुत्रा उपमासोरभिष्ठा स्वया मत्या मरुतः संविमीषुः यत्प्राया आशिष्टपृषतेभिरश्वैर्मीलुपविभिर्मरुतो रथेभिः क्षोदन्त आपोरिणदेव नान्यमोऽस्त्रियो ऋषपह्नन्दतुद्यौ प्रतिष्ठयामन् पृथिमेति तेषाम् वर्तेभम् स्वमिच्छ वोधुः पातान्धुर्यायुजुज्रे वर्षम् स्वेदम् चक्रिरे रुद्रिया सह हयेन रोमरुतो मृळताः नस्तु विघासो अमृता ऋतज्ञाः कवयो युवा बृहद्गिरयो बृहदुक्षमाणाः स्फलक्रन्तुर्चादिवे प्रपृथिव्याकृम्भरे उक्षन्ते अश्वान्तरुषन्तरजो नुस्वम् भानुम् श्रयन्ते अर्णवैः अमादेशाम्भियसा भूमिरेजति नोर्णपूर्णाक्षरतिम् यथि यूरे दृशो ये गवामिव श्रियसे शृङ्गमुत्तमम् सूर्यो न चक्षूरजसो विसर्जने रत्याः इव शुभ्वा अश्चारवस्थनमर्याः इव श्रियसे चेतथा नरः को महांति महान्ति महतामुदष्टमर्कस्काव्याः मरुतः को हवंस्याः यूयम् हभूमिङ्गिरणन्मरे यथप्रयद्भरद्भे सुविदाय तामनेः अश्वा इवेदरुधा सः सबन्धवः शूराः इव प्रयुधः प्रोतयुयुधुः मर्याः इव सुवृधो वामृधुर्नलः सूर्यस्य चक्षुः प्रमिनन्ति वृष्टिभिः ते अध्येष्ठा अकनिष्ठा स उद्भिदो मध्यमासो महसा विवाहा वृधुः सुजातासो जनुषा दिवो मर्या आ नो वयो नये श्रेणी पक्तुरो न सान्ताम् दिवो बृहत् सानुनस्पति अश्वास एषामुभये यथा विदुः प्रपर्वतस्य न भनो रचुच्यभुः मिमा उद्यौरीतये रुद्रस्य मरुतो गृणानाः कीले ए अग्निम् प्रसत्तो विजयत्कृतन्नाः रथैलिव प्रभरे वाजयद्भिः प्रदक्षिणीम् मरुतां स्तोमबुद्ध्याम् आयेतस्तुः पृषतेषु श्रुतासु सुखेषु रुद्रा मरुतो रथेशु वनाचिदुग्राजिहते निपोभियापृथिवी चिद्रेजते पर्वतश्चित् पर्वतश्चिन्महि वृद्धोऽपि भायति पश्चित्सानुरेजतस्वनेवाह यत्क्रीडथमरुतदृष्टिमन्तः प इव सध्र्यम् चोधवध्वे परा इवेद्रैः बतासो हिरण्यैरभिस्वदाभिस्तन्वः पिभिश्रे श्रिये श्रेयांसस्तपसो रथेषु सत्रामहांसिचक्रिरे अकनिष्ठास एते सम्भ्रातरोमावृथः युवाः पिता रुद्र एषाम् सुदुघा पृष्णिः सुदिनाः मरुतो मध्यमे वा यद्वावमे सुभगासो दिविष्ठ अतो नो रुद्रा उत अस्याग्ने वित्ताद्धविषो यद्यजाम अग्निश्चयन्मरुतो विश्ववेदसो थुनजोरिषादशोभा मन्धत्रयजमानाय सुन्वते अग्ने मरुद्भिः शुभयद्भिरदुक्कभिः सोमम् बिबमन्दसानो गणश्रिभिः पापकेभिर्विश्वमिन्वेभिराजुभिर्वैश्वा नरप्रतिभाः केतुनाः सजोः केष्ठाः नरश्रेष्ठतमाय एक एक आजया परमस्याः क्वाश्वा क्वाभिषवः कथं सेककथाय पृष्ठे सदो निलरो न सोर्यमाह जघने चोदयेषाम् विसक्थ निररो यमुः पुत्रकृथेन जनयः परा वीरास एतनमर्यासो भद्रजानयः अद्यतपो यथा सथा स नत्साश्व्यम् पशुमुदगम्यम् शता वयम् श्यावाश्वस्तुता जयादोर्वीरायोपवर्बृहत् उत त्वास्त्रीशीयसी पुंसो भवति वस्यसि अरे वत्रादराधसाः विया जानाति च सुरिम् विदृश्यन्तम्बिकाविनम् देवत्रा गृणुते मनाः उत घाने मो अस्तुतः पुमाङ्गिरिब्रुवेपणिः स वैरदेय इत्समः ऋत मेरपद्युभतिर्ममन्दुषे प्रदिश्यावायवर्तलिम् विरोहिता पुरमीभाजये मधुर्विप्राय दीर्घयसते यो मे धेनूनाम् शतम् वैदश्विर्यथा दधत् तरन्त इव मम् मना य ईम् वहन्त आशुभिः क्लिबन्तो मधिरम् मधु अत्र श्रवांसि दुधिरे येषाम् श्रियाधिरोदसी विभ्राजन्ते रथेष्मा दिवि रुक्म इवोपरि युवासमारुतो गणस्वेषरथो अनेद्यः शुभञ्जावा प्रतिष्कृतः को भेद नूनमे शायत्रामलन्ति धूतयः ऋतयाता अरेपसाः योऽयम् अर्थम् विपन्यः प्रणेतार इच्छाधिया श्रोता रोयामभूतिषु ते नो वसो निकाम्याः पुरश्चन्द्रारिषादसः आजज्ञियासो वृत्तन एतम् मे स्तोमूर्ण्येताभ्यायपरा वः गिरो देवि रथिरिव एष क्षेतिरथवीतिर्मधवागोमतीरनो पर्वतेष्वपश्रितः ऋतेन ऋतमपि हितम् ध्रुवम् वां सूर्यस्य यत्र विमुचन्तिश्वान् दशशता सालस्त्वस्तदेकम् देवानाम् श्रेष्ठम् वपुषामपश्यम् तत्सुवाहम् मित्रावरुणामहित्वमीर्मातस्थु शीरःभिर्दुदुह्रे विश्वाः पिन्नथस्वसरस्य धेना अनुवामेकः पभिरापवर्त अधा हारयतम् पृथिवीमुतद्याम् मित्रराजानामरुणामहोभिः वर्धय तमोषधेः पिन्वतङ्गा अपवृष्टिम् स्रजतम् जीरदा नो आ वामश्वाश्रुयुजो वहन्तु यतरश्मय उपयन्तर्वाक् घृतस्य निर्णिगनुवर्तते पामुपसिन्धवः प्रतिविक्षरन्ति अनुस्रुता ममतिम् वर्धदुर्वीम् वर्हिरिमयदुषा नमः स्वता धृतदक्षाधिकर्ते मित्रा सा अथेव रुणेळाः स्वन्तः अक्रविहस्तासु कृते परस्पायन्त्रा सा अथेव रुणेलाः स्वन्तः राजानाक्षत्रमहर्णीयमाना सहस्रस्थोणम् बिभृतः सहद्वौ भद्रे क्षेत्रे निमिता तिल्विले वासने मध्वोमधिगर्त्यस्य हिरण्यरूपमुषसोऽव्युष्टा वयस्थोणमुदिता सूर्यस्य आरोहसो वरुणमित्रकर्तमतश्चक्षासेव यद्ब्रह्मिष्ठन्नातिविधे सुदा नो अच्छिद्रम् शर्म भुवनस्य गोपा तेन नो मित्रावरुणावविष्टम् सिषा इति चतुर्थाष्टके तृतीयोऽध्यायः